द्विसप्तत्यधिकशततमोऽध्यायः गन्धर्वौ उवाच एवमुक्त्वा ततस्तूर्णम् जगामूर्ध्वमनिन्दिता स तु राजा पुनर्भूमौ तत्रैव निपपातः अन्वेषमाणः सबलस्तम् राजानम् नृपोत्तमम् अमात्यः तन्ददर्शमहावने क्षितौ निपतितम् काले शक्रध्वजमिवोच्छ्रितम् तम् हि दृष्ट्वा भुवि बभूवसोऽस्य सचिवः सम्प्रदीप्तैवाग्निना त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः तम् समुत्थापयामासन्नृपतिम् काममोहितम् भूतलात् भूमिपालेशम् पितेव पतितम् प्रज्ञया वयसा चैव वृद्धः कीर्त्यानयेन च अमात्यस्तम् समुत्थाप्य बभूव विगतज्वरः उवाच चैनम् कल्याण्या वाचा मधुरयोत्थितम् मा भैर्मनुजशार्दूलभद्रमस्तुतवानघ क्षुत्पिपासा परिश्रान्तम् तर्कयामास वैनृपम् पतितं पातनं सङ्ख्ये शात्रवाणाम् महीतले वारिणा च सुशीतेन शिरस्तस्याभ्यषेच यत् अस्फुटन् मुकुटम् राज्ञः पुण्डरीकसुगन्धिना ततः प्रत्यागतप्राणस्तद्बलम् बलवान् नृपः सर्वम् विसर्जयामासतमेकम् विना ततस्ताराज विप्रतस्थे महदल सिरी प्रस्थे तस्नपाविश ततस्तिवरे शुचिर्भूवा कृता आरिराधयिषु सूर्य तस्थाध्व क्षितौ जगाम मनसा च वसीम ऋषि सतम पुरोहितममित्रघ्नस्तदा संवरणोऽनृपः नक्तम् दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे अथा जगाम विप्रर्शिस्तदा द्वादशमेहनि स विदित्वैव नृपतिम् दिव्येन विधिना भावितात्मा महानृषिः तथा नियतात्मानं नियतात्मानम् तम् नृपम् मुनिसत्तमः आबभाशे स धर्मात्मा तस्यैवार्धचिकीर्षया स तस्य मनुजेन्द्रस्य पश्यतो भगवान् ऋषिः ऊर्ध्वमाचक्रमे द्रष्टुम् भास्करम् भास्करद्युति सहस्रांशुन्ततो विप्रः कृताञ्जलिरुपस्थितः वसिष्ठोऽहमिति प्रीत्या स चात्मानम् न्यवेदयत् वसिष्ठौ उवाच अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय सूर्याय सर्गप्रलयालयाय नमो महाकारुणिकोत्तमाय विवस्वते ज्ञानभृदन्तरात्मने जगत्प्रदीपाय जगद्धितैषिणे स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामित तेजसे नमः नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्च नारायण शङ्करात्मने तमुवाच महातेजा महर्षे स्वागतम् ते स्तु कथय स्वयथेप्सितम् यदिच्छसि महाभागमत्तः प्रवदताम् वर तत्ते दद्यामभिप्रेतम् यद्यपि स्यात् सुदुष्करम् स्तुतोऽस्मि वरदस्तेऽहम् वरम् वरे सुव्रत स्तुतिस्त्वयोक्ता भक्तानाम् जप्येयम् वरदोऽस्म्यहम् एवमुक्तः स ते नर्षिर्वसिष्ठः प्रत्यभाषत प्रणिपत्यविवस्वन्तम् भानुमन्तम् महातपा वसिष्ठौ उवाच यैषा तपती नाम सावित्र्यवरजासुता ताम् त्वाम् संवरणस्यार्थे वरयामि विभावसो सहिराजा हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधी युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम इत्युक्तः स तदा तेन ददानीत्येव निश्चितः प्रत्यभाषत तम् विप्रम् प्रतिनन्द्य दिवाकरः राज्ञाम् त्वम् ऋषीणाम् वरो मुने तपति श्रेष्ठा किमन्यदपवर्जनात् ततः सर्वानवद्याङ्गी तपतीम् तपनः स्वयम् ददौ संवरणस्यार्थे वसिष्ठाय महात्मने प्रतिजग्राहताम् कन्याम् महर्षिस्तपतीम् तदा वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगामः यत्र विख्यातकीर्तिः स कुरूणाम् स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना दृष्ट्वा च देवकन्याम् ताम् तपतीम् चारुहासिनीम् वसिष्ठेन सहायन्तीम् संहृष्टोऽभ्यधिकम् बभौ रुरुचे साधिकम् सुभ्रूरापतन्ती नभस्तलात् सौदामिनीव विभ्रष्टाद् द्योतयन्ती दिशस्त्विषा कृच्छ्राद्वादशरात्रे तु तस्य राज्ञः समाहिते आजगामविशुद्धात्मा वसिष्ठो भगवान् ऋषिः तपसाराध्यवरदम् देवम् गोपतिमीश्वरम् लेभे संवरणो भार्याम् वसिष्ठस्यैव तेजसा